प्राणान्सेत्या हवद्रवेश्यान्त्यैवानुष्या आच्छन्दव्या वृत्ते रक्ष बा ैव रक्षायत इदो रक्षवन्तो नयामि योन्द्येष्टयं हतो वा नयदीशे त्वे दिवपाम्येषु धातुकस्याम् अपधुञ्जादयतास्यायोपधर्मञ्जया वा पृथिवेत्या ारायश्वरेवस्मिन्नेव लोके प्रतिष्ठे रक्षसामहत्याेनान्वे दङ्गारे स्माद् भर्तास्तोकान्ते क्रन्दा एतत्पुषो ना यद्वपाक्रमौषधीनां परिहरग्रे नैवाक्रमो समर्थयत्यथोकौषधीश्व पशुन् प्रतिष्ठापयद स्वाहाकृते समिष्टि प्राणापानो वा एतौ पुशूनां यत्पृषधात्यमात्मा पपात्येव पुशूनां प्राणापानो दधाति स्वाहो गच्छद्या आे प्रहृदेनैवेणे प्रहृद् विशोदे प्रहृदौ प्राणाभानौ